हरि ओम् जय सीतारामचन्द्राभ्याम् नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे पञ्चनवति तमः सर्गः स्वमात्या आहूय रावणेन स्वशत्रुवध विषयकोत्साहस्य प्रकटनम् सर्वैः ऋणभूमिम् आगत्य पराक्रमस्य प्रदर्शनम् च आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले, रावण करुणम् शब्दम् शुच्रा वपरिदेवितं सतदीर्घं विश्वस्य मुहूर्तं ध्यानमास्थितः बभूव परमक्रुधो रावणो भीमदर्शनः सन्दश्च दशने रोष्ठम् क्रोधसंरक्तलोचनः राक्षसी अपि दुर्दर्श कालाग्धीव मूर्तिमाम् उवाच च समीपस्थाम् राक्षसान् राक्षसेश्वरः क्रोधा व्यक्तकथस्तत्र निर्दहन्निव चक्षुषा महोदरम् महापार्श्वम् विरूपाक्षम् च राक्षसम् शीघ्रम् वदत सैन्यानि निर्यातेति मम ज्ञया तस्य तद्वचनम् श्रुत्वा राक्षसास्त्रे भयार्जितः चोदयामासव्यग्रान् राक्षसान् तान् ते तु सर्वे तथेत्युक्त्वा राक्षसा भीमदर्शनः कुत स्वस्य यना सर्वे तेरणाभिमुखाययु प्रतिपूज्य यथा न्यायम् रावणं ते महारथा तस्तु प्राञ्जलय सर्वे भर्तुर्विजयकाङ्क्षिणः ततो वाच प्रश्येतान् रावणक्रोधमूर्छितः महोदर महापाशो विरूपाक्षं च राक्षसम् अद्य बाणधरुन्मुक्त युगान्तान्दित्य सन्निभै राघवम् लक्ष्मणं चैव नेष्यामि यमसाधनं खरस्य कुम्भकर्णस्य हृस्तेन्द्रजितोस्तथा करिष्यामि प्रतीकारम् अद्य शत्रुवधादहम् नैवान्तरिक्षम् न दिशो न च दौर्नापि रासागरः प्रकाशत्वम् गमिष्यन्ति मद्बाणजलदावृतः अद्य वा नरमुख्यानाम् तानि यूथानि भाग च जालेन वहिष्यामि पतत्रिणा अद्य वा नरसैन्यानि रथेन पवनौजसा धनुसमुद्रादुद्भूतै मथिष्यामि शरोर्मिभिः व्याकोशे पद्मवक्त्राणि पद्मकेसरवचसाम् अद्य यूथतटाकानि ता गजवत् प्रमथाम्यहम् च शरैर्दद्यवदनै सङ्ख्ये वानरयूथपः मण्डयिष्यन्ति वसुराम् स नालैरिव पङ्कजै अद्य यूथप्रचण्डानाम् हरिणाम् द्रुमयोधिनाम् मुक्तेनैकेषु ना युद्धे भेत्स्यामि च शतम् शतम् हतो भ्राता च येषाम् वै येषाम् च वधेनाद्य रिपो करोम्यश्रु प्रमाजनम् अद्य मद्बाण निर्भिन्नै प्रस्तीर्णै गतचेतनै करोम्यैर्युद्धे यत्नावेक्ष्य तलां महिम् अद्य काका च गृध्रा च ये च मासशिनोपरे सर्वान्तां तर्पयिष्यामि चतुर्मासे शराहते कल्पञ्चाम्मे िप्रमाणीयताम् धनुः अनुप्रयान्तु मां युद्धे यत्र शिष्टा निशाचरः तस्य तद्वचनम् तस श्रुत्वा महापाशो ब्रवीद्वचः बलाध्यक्षां स्थितान् तत्र बलं सन्तर्यतामिति बलाध्यक्षा तु संयुक्ता राक्षसान् तान् गृहे गृहे चोदयन्त परेयुयुः लंकान भीम भीम वदना नाना लंका रघुपराक्रम तथ मुहूर्ता राक्षसादर्शन नोम वहरणुजूल गा मुसल हल शक्ति तीक्षण महद्भिगरे भी, भी, भी, तीक भी, भी, भी विविधै चक्रे निशितैश्च परश्वधै भिन्दिपालैश दग्नेभिः अन्ये चापि वरायुधै अथा नयन्दलाध्यक्षाश्चत्वारो रावणाद्यया रथानाम् नियुतम् सागरम् नागानाम् नियुतत्रयम् अश्वानाम् षष्टिकोट्यस्तु करोष्ट्राणाम् तथैव च संख्याता, दा यह संख्या जगम्मूसे राजध्यक्षाश संस्थाप्य राज से स्थापया दिव्यापन्नमलूषित नानायू सामकर्णी जाल संयुत नानारत्न परिक्षिप्तम् रत्नसम्भै विराजितम् जाम्बूनादमये चैव सहस्रकलशैर्वृतम् तम् दृष्ट्वा राक्षसा सर्वे विस्मयम् परमम् गतः तम् दृष्ट्वा स स्वोत्थाय रावणो राक्षसेश्वरम् कोटिसूर्यप्रतिकाशम् गणन्तम् विव पावकम् दृतम् सूतः समायुक्तम् युक्ताश्च तुरगं रथम् आरुरोह तदा भीमम् दीप्यमानं स्वतेजसा ततः प्रयातश्च सा राक्षसै बहुभिवृतः रावणः सत्रगाम्भीर्या दारयन्निव च ततस्ततः मृदङ्गैः पचहे शङ्खैः कलहैः सह अगतो आगतो रक्षसां राजा क्षत्र चामरसंयुतः सीतापहारी दुर्वृद्धौ ब्रह्मग्नो देवकण्टकः योद्धुम् रघुवरेणेति शुश्रुवे कलहध्वनि तेन नादेन महता पृथिवी समकल्पम्पत् तं शब्दं वानरा श्रुत्वा वानरादुद्रुर्वयात् रावणस्तु सचिवै परिवारितः आजगाम महातेजा जयाय विजयं प्रति रावणेनाभ्यनुज्ञातौ महापाश्वे महोदरो विरूपाक्षश्च दुर्दर्शो तथा नारुरुःस्तदा ते तु रुष्टाभिनर्दन्तु भिन्दन्त इव नादं नादम् घोरम् विमुञ्चन्तु निर्ययुर्ययकाङ्क्षिणः ततो युद्धाय तेजस्वी रक्षोगणबलिर्वृतः निर्यय उद्यतनो धनुः कालान्तकयमोपमः का ततप्रज वित्ताश्वेन रथेन स द्वारेण निर्योतेन यत्र तौ रामलक्ष्मणौ ततो नष्ट प्रभ सूर्यौ दिशश्च तिमिरावृतः द्विजाश्च मेने दुघोराश्च सञ्चचाल च मेदिनी भवधिरं देव च खलुश्च तुरङ्गमः ध्वजाग्रहण्यपतद् गृध्रो विनेदुश्चाशिवम् शिवाः नयनम् चास्फुरद् वामम् वामो बाहु कम्पत विवरण वदन चासीत् किञ्चिदभ्रशत स्वनः ततो निष्पततो युद्धे दश ग्रीवस्य रक्षद रणे निधन शन्थिने रूपाण्डेता निज निरे अन्तरिक्षात् विनेदूरशिवा रुद्रा पायसै अभिमिश्रितः एतान् चिन्तयन् घोरान् उत्पातान् समवस्थितान् न्ययो रावणो मोहात् वधार्थम् कालचोदितः तेषाम् तु रथघोषेण राक्षसानाम् महात्मनाम् वानराणामपि च मु युद्धायैर्वाभ्यवर्तत तेषां तु मलं युद्धं बहुवकपि रक्षताम् अन्योन्यमा भयानानां क्रुद्धानां जयमिच्छताम् तद क्रुद्धो दशग्रीव शरीरकाञ्चन भूषणे वानराणामनीकेषु चकार कदनम् निकृत्त शिरस केचित् रावणेन बलिमुख केचित् विच्छिन्न हृदयः केचित् श्रोत्र विवर्जिता निरुच्छ्वासा हता केचित् केचित् पार्श्वेषु धारिताः केचित् विभिन्न शिरस केचित् चक्षुर्विना कृता दशाना क्रोधविवृतनेत्रो यतो यतो भेतिरथेन सङ्ख्ये ततस्तस्य शरप्रवेगम् सोढुं न शे कुर् हरियूथपापे इत्याशी श्रीमद् रामायणे वाल्मीकि अधिकाव्य युद्धकाण्डे श्री नवतितमः सर्गः श्रीसीतारामचन्द्रर्पणमस्तु